अथ षट्चत्वारिंशोऽध्यायः वैशम्पायन ततो विसृज्य गन्धर्वम् कृतकृत्यम् शुचिस्मिता उर्वशी चाकरोत् स्नानं स्नानम् पार्थदर्शनलालसा स्नानालङ्करणैर्हृद्यैर्गन्धमाल्यैश्च सुप्रभैः धनञ्जयस्य रूपेण शरैर्मन्मथ चोदितैः अतिविद्धेन मनसा मन्मथेन प्रदीपिता दिव्यास्तरण संस्तीर्णे विस्तीर्णे शयनोत्तमे चित्तसङ्कल्पभावेन सुचित्तानन्यमानसा मनोरथेन सम्प्राप्तम् रमन्त्येनम् हि फाल्गुनम् निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनम् प्रति मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा केशहस्तेन ललना जगामाथ विराजति भ्रूक्षे पालापमाधुर्यैः कान्त्या सौम्यतयापि च शशिनम् वक्त्रचन्द्रेण साह्वयन्तीव गच्छति दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ स्तनौ तस्यावववल्गतुः